गरुडपुराणम् आचारकाण्डम् अध्यायम् फर्टि एय् सूत उवाच प्रतिष्ठाम् सर्वदेवानाम् सङ्क्षेपेण वदाम्यहम् सुदिद्यादौ सुरम्याम् च प्रतिष्ठाम् कारयेद्गुरुः ऋत्विग्भिः सह चाचार्यम् वरयेन्मध्यदेशगम् स्वशाखोक्तविधानेन अथवा प्रणवे न तु पञ्चभिर्बहुभिर्वाधगुर्यात्पाद्यार्घ्यमेव च मुद्रिकाभिस्तथा वस्त्रायिर्गन्धमाल्यानुलेपनैः मन्त्रन्यासम् गुरु कृत्वा तदकर्मसमारभेद प्रासादस्याग्रदकुर्यान्मण्डपम् दशहस्तकम् कुर्याद्वादशहस्तम् वा स्तम्भैः षोडशभिर्युतम् ध्वजाष्टकैश्चतुर्हस्ताम् मध्ये वेदिम् च कारयेत् नदी सङ्गमती राधाम् वा लुकाम् तत्र दापयेद् चतुरश्रं कार्मुकाभं वर्तुलं कमलाकृतिः पूर्वादिदस्समारभ्य कर्तव्यं कुण्डपञ्चकम् अथवा चतुरश्राणि सर्वाण्येतानि कारयेद् शान्तिकर्मिद्धानेन सर्वकामार्थसिद्धये शिरस्थाने तु देवस्य आचार्यो होममाचरेद ऐशान्याम् केचिदिच्छन्ति उपलिप्यावनिं शुभाम् द्वाराणि चैव चत्वारि कृत्वा वैतोरणान्तिके न्यग्रोधो दुम्बराश्व बैल्वपालाशखादिराः तोरणाः पञ्चहस्ताश्च वस्त्रपुष्पाद्यलङ्कृताः निखने दस्तमेकैकं चत्वारश्च दुरोदिशः पूर्वद्वारे मृगेन्द्रं तु हयराजं तु दक्षिणे पश्चिमे गोपतिर्नाम सुरशार्दूलमुत्तरे अग्निमीले दिहि मन्त्रेण प्रथमं पूर्वदोन्यसेद ईष्ये त्वे दिहि मन्त्रेण दक्षिणस्यां द्वितीयकम् अग्न आयाहि मन्त्रेण पश्चिमस्यां तृतीयकं शन्नो देवीदि मन्त्रेण उत्तरस्यां चतुर्थकं पूर्वे अम्बुधवत्कार्या आग्नो यां धूमरूपिणी यां यां वै कृष्णरूपादु नैरृत्या भवेद वारुण्याम् पाण्डुराज्ञेया वायव्याम् पीतवर्णिका उत्तरे रक्तवर्णादुशुक्लैशी च पदाकिका बहुरूपा तथा मध्ये इन्द्रविद्येति पूर्वके अग्निं संसुप्तिमन्त्रेण यमो नागेदि दक्षिणे पूज्या रक्षोहनो वेदि पश्चिमे उत्तरेऽपि वादयित्यभिषिच्याध आप्यायस्वेदि चोत्तरे तमीशानमदश्चैव विष्णोर्नुकेदि मध्यमे कलशौ तु कलशौ दु तदौ द्वौ द्वौ निवेश्यौ तोरणान्तिके वस्त्रयुग्मसमायुक्ताश्चन्दनाध्यायीस्वलङ्कृतः पुष्पैर् वितानैर्बहुलैरादिवर्णाभिमन्त्रिताः दिक्पालाश्च तदपूज्या शास्त्रदृष्टेन कर्मणा त्राधारमिन्द्रभन्द्रेण अग्निर्मूर्धेति चापरे अस्मिन्वृक्ष इदम् चैव प्रचारीति परा स्मृता किञ्चे दद्धातु आचत्वा भित्त्वा देति च सप्तमी इमा रुद्रेदिख्यालान् पूजयित्वा विचक्षणः ओमद्रव्याणि वायव्ये कुर्यात्सोपस्कराणि च शङ्खाञ्चास्त्रोदिताञ्च्वेदान्यत्राभ्याम् विन्यसेद्गुरुः आलोकनेन द्रव्याणि शुद्धिं यान्ति न संशयः हृदयादीनि चाङ्कानि व्याहृति प्रणवेन च अस्त्रं चैव समस्तानां न्यासोयं सर्वकामिकः अक्षतान्विष्ठरं चैव अस्त्रेणैवाभिमन्त्रितान् विष्टरेण अस्त्रे स्पृश्ये दुव्यान्यागम विद्यान्यागमण्डपसम्भृदान् अक्षतान्वि रे अक्षतान्विकिरेत् पश्चादत्र पूदान् समन्ततः शास्त्रीम् दिशमधारभ्ययावदीशानगोचरन् गन्धाद्यैरार्क्यपादे च मन्त्रग्रामं गुरुहु। गुरुः तेनार्क्यपात्रतो येन प्रोक्षयेद्यागमण्डपम् देवस्य तदाख्यम् कलशं ऐशान्यम् पूजयेद्याम्ये अस्त्रेणैव जवर्धनीम् कलशं वर्धनीम् चैव ग्राहान्वास्तोष्पदिम् तथा आसनेतानि सर्वाणि प्रणवाक्यम् जपेद्गुरुः सूत्रग्रीवं रत्नगर्भम् वस्त्रयुग्मेन वेष्टितं सर्वौषधी गन्धलिप्तं पूजयेत् गुरुः देवस्तु वर्धन्या पूज्यो वर्धन्या वस्त्रमुत्तमं वर्धन्या दुसमायुक्तं कलशं भ्रामयेदनु वर्धनीधारया सिञ्चन्नग्रदो धारये ततः अभ्यर्चवर्धनी कुम्भं स्तण्डिले देवमर्चयेद दे। कठं चाबाह्यवायव्यां गणानां त्वेदि सद्गणं देवमीशानकोणे तु जपेद्वास्तोष्पदिम्बुधः वास्तोष्पदीति मन्त्रेण वास्तु दोषोपशान्तये कुम्भस्य पूर्वतो दो भूतम् गणदेवम् हरेद पठेदिति विद्याश्च कुर्या कुर्यादालम्भनं बुधः योगे योगे योगेदिमन्त्रेणा स्तरणं चाध्वलैः कुशैः ऋत्विग्भिः सार्धमाचार्यस्नानपीठे गुरुस्तदा विविधैर्ब्रह्मकोषैश्च पुण्याः जयमङ्गलैः कृत्वा ब्रह्मरथे देवं प्रतिष्ठन्ति ऐशान्यमानयत्पीठमण्डपे विन्यसेद्गुरुः भद्रं कर्णेत्यध स्नात्वा सूत्रवल्कले सूत्रवल्कलजेन संस्नाप्यलक्षणोद्धारं कुर्यात्तूर्यादि वादनैः मधुसर्पि समायोक्तं कांस्येवा ताम्रभाजने अक्षिणी चां जये चास्य सुवर्णस्य शलाकया अग्न्यज्योतिमन्त्रेण नेत्रोद्वाडं तु कारयेद लक्षणे क्रियमाणे दुनामकं स्थापको वदेद इमां मे गङ्गे मन्त्रेण नेत्रयो शीतलक्रिया अग्निर्मूर्धेति मन्त्रेण दद्याद् वल्मीकं मृत्तिका वल्ल्वोदुम् परमश्वम्बम्बालाशमेव च यज्ञायज्ञेति मन्त्रेण दद्यात् पञ्चकषायकम् पञ्चकव्यं स्नापये च सह देव्यादिभिस्तदः कुमारी च गुडूची च सिंहि व्याघ्री तथैव च या ओषधीदिमन्त्रेण स्नानमोषधिमज्जलैः या भलिनीधिमन्त्रेण भलस्नानं विधीयते द्रुपदादिवेदिमन्त्रेण पर्यमुद्वर्तनं बुधैः कलशेषु च उत्तरादिष्वनुक्रमाद रत्नानि चैव धान्यानि ओषधीं शतपुष्पिकाम् समुद्रांश्चैव विन्यस्य चतुरश्चतुरोदिशः क्षीरं दधि क्षीरोदस्य कृदो दस्य दिवा पुनः अप्यायस्वदधिक्रावणो यावोषधीरिति च तेजोऽसीदिजमन्त्रैश्च कुम्भम् चैवाभिमन्द्रयेत् समुद्राख्यैश्च दुर्भिश्च स्नापयेत् कलशै सुवेशश्च धूबोधेयश्च गुग्गुरुः अभिषेकाय कुम्भेषु तत्ततीर्थानि विन्यसेद पृथिव्यां यानि तीर्थानि सरिदसागरास्तथा यावोषधीतिमन्त्रेण कुम्भं चैवाभिमन्त्रयेद तेन तोयेन यस्नायात् स मुच्ये सर्वपादकैः अभिषिच्य समुद्रैश्चत्वर्क्यं दद्यात् तद पुनः दिगन्धं च न्यासं स्वशास्त्रविहिदै प्राप्तैर् युववंस्त्रेदि वस्त्रकम् कविहाविधिमन्त्रेण आनयेन्मण्डपम् शुभम् शम्भवा येदि मन्त्रेण शय्यायाम् विनिवेशयद विश्वतश्चक्षुर्मन्त्रेण कुर्याः सकलनिष्कलम् स्थित्वा चैव परे तत्त्वे तु कारयेद स्वशास्त्रविहितो मन्त्रोऽन्यासस्तस्मिंस्तधोदितः वस्त्रेणाच्छादयित्वा तु पूजनीयस्वभावदः यथा निवेद्यानि पादमूलेदु धापयेद अधप्रणवसंयुक्तं कलशं स च शिरस्थाने तित्वा कुण्डसमीपेध अग्नेस्थापनमाचरेद स्वशास्त्रविहिदैर्मन्त्रयैर्वेदोक्दैर्वाधवा गुरुः श्रीसूक्कृतम् पावमान्यं च वासदाम्यसवाजिनं वृषाकपिं च मित्रं बह्वचः पूर्वदो जपेद रुद्रम् पुरुषसूक्दं च श्लोकाध्यायं च शुक्रियम् ब्रह्माणं पितृमैत्रं च तध्वर्युर्दक्षिणे जपेद वेदव्रतं वामदेव्यं ज्येष्ठसामरथन्तरं भेरुण्डानि जसामानि छन्दोगपश्चिमे जपेद अथर्वशिरसं चैव कुम्भसूक्तमधर्वणः नीलरुद्रांश्च मैत्रं च अथर्वच्चोत्तरे जवेद कुण्डं चास्त्रेण सम्प्रोक्ष्य आचार्यस्तु विशेषदः ताम्रपात्रे शरावेवा यथा विभवदोऽपि निवेशयेद अस्त्रेण ज्वालयेद्वाग्निं कवचेन तु वेष्ठयेद अमृदीकृत्य तं पश्चान्मन्त्रैः सर्वैश्च देशिकः पात्रं गृह्यकराभ्यां च कुण्ठं भ्राम्यतदः पुनः वैष्णवेन योगेन परं तेजस्तु निःक्षिपेद दक्षिणे स्थापयद्ब्रह्मप्रणीताञ्चोत्तरेण साधारणेन मन्त्रेण स्वसूत्रविहितेन वा दिक्षु दिक्षु ततो दध्यात् परिधि विष्टरैः सह ब्रह्मविष्णुहरेशानापूज्या साधारणेन तु दर्भेषु स्थापयेद्वह्निं दर्भैश्च परिवेष्टितं दर्भतो येन संस्पृष्टो मन्त्रहीनोऽपि शुध्यति प्रागैग्रैरुदग्रैश्च प्रत्यगग्रैरखण्डितैः विततैर्वेष्टितो वह्निस्वयम् सान्निध्यमाव्रजेद अग्नेस्तु रक्षणार्थाय यदुःखतम् कर्म मन्त्रविद आचार्या केचिदिच्छन्ति जात कर्माद्यनन्तरम् पवित्रम् तु तदा कृत्वा कुर्यादाज्यस्य आचार्यसनिरीक्ष्यापि नीराज्यमभिमन्त्रितम् आज्यभागाभिकारान्तमवेक्षेताज्यसिद्धये पञ्चपञ्चाकुदिर्हुत्वा आज्येन तदनन्तरं गर्भाधानादिदस्तावद् यावद् गोदानिकम् भवेत् स्वशास्त्रविहितैर्मन्त्रैः प्रणवेनाथ होमयेद तथ पूर्णाहृदिं दत्त्वा पूर्णात् पूर्ण मनोरथे मना रथः एवमुत्पादितो वह्निः सर्वकर्मसुसिद्धितः पूजयित्वा ततो वह्निं इन्द्रादीनां स्वमन्त्रैश्च तदाहृदि शतं पूर्णाहुदिं शतस्यान्ते सर्वेषां चैव होमयेद स्वामाहुदिमदाज्येषु होदा तत्कलश्यसेद देवताश्चैव मन्त्रांश्च तथैव जाधवेदसम् आत्मानमेकध कृत्वा तथा पूर्णां प्रतापयेद निष्कृष्य बहिराचार्यो दिक्पालानां बलिं हरेद भूतानां चैव देवानां नागानां च प्रयोगदः तिलाश्च समिधश्चैव होमद्रव्यं द्वयं स्मृदं आद्यं तयो सहकारि तत्प्रधानं यदक्षयोः पुरुषसूक्तं पूर्वेणैव रुद्र दक्षिणे ज्येष्ठसामजभारुण्डम् तन्नयामिधिपश्चिमे नीलरुद्रो महामन्त्रकुम्भसूक्तमधर्वणः उत्वा सहस्र मे कैकम् देवम् शिरसि कल्पयेद शिरस्थाने शुजिहुयादाविशे चाप्यनुक्रमाद वेदानामादिमन्त्रैर्वा मन्त्रैर्वा देवनामभिः स्वशास्त्रविहितैर्वापि गायत्र्या वाधते द्विजाः गायत्रिया वाध वा चोर्यो व्याहृति प्रणवेन तु एवं होमविधिं कृत्वा न्यस्यन्मन्त्रांस्तु इष्येत्वो गुल्फयोऽस्ति दासा अग्नायाहि जङ्घे द्वे शन्नो देवी दिजानुनि बृहद्रतन्तरे उरु उदरेष्वातिलोन्यसेद दीर्घायुष्ठवाय हृदये श्रीश्चदे गलके न्यसेद प्रातरमिन्द्रमुरसिनेत्राभ्यां दु त्र्यम्बकम् मूर्धा भव तथा मूर्ध्नि आलग्नाद्धोम माचरेद उद्धापयेत्तदो देवमुत्तिष्ठब्रह्मणस्पते दे। वेदपुण्याः शब्देन प्रासादानां प्रदक्षिणं पिण्डिकालम्भनं कृत्वा देवस्य त्वेदि मन्त्रविद दिक्पालान् सह रत्नैश्च धाधूनौषधयस्तथा लौहबीजानि सिद्धानि पश्चाद्देवम् तु विन्यसेद न गर्भे स्थापयेद्देवं न गर्भम् तु परित्यजेद् ईषन्मध्यम् परित्यज्य तदो दोषापकम् तु तद् तिलस्य तुषमात्रम् तु उत्तरम् किञ्चिदानयेत् ॐ स्थिरो भवशिवो भव प्रजाभ्यश्च नमो नमः देवस्य सवितुर्वः षड्भ्यो वैविन्यसेद् गुरुः तत्त्ववर्णकलामात्रं प्रजानि भुवनात्मजे षड्भ्यो विन्यस्य सिद्धार्थं ध्रुवार्थैरभिमन्त्रयेत् सम्पादकलशेनैव स्नापयेत् सुप्रतिष्ठितं दीपद्धूपसुगन्धैश्च दे। नैवेद्यैश्च अर्घ्यम् दत्त्वा नमस्कृत्य ततो देवं क्षमापयेद दे पात्रम् वस्त्रयुग्गम् छत्रम् तदा दिव्याङ्गुलीयकम् ऋत्विभ्यश्च प्रदातव्या दक्षिणा चैव चक्रिदः चतुर्थी जुहूयात् पश्याद्यजमानः समाहिदः भूत्वा तदपूर्णाम् प्रदापयेद् निष्क्रम्य बहिराचार्यो दिक्पालानाम् बलिम् हरेद आचार्यपुष्पहस्तस्तु क्षेमस्वेदि विसर्जयेद यागान्ते कपिलाम् दद्यादाचार्याय या चामरम् मुकुडम् कुण्डलम् छत्रम् केयूरं कडिसूत्रकम् व्यजनं ग्रामवस्त्रादीन् सोपस्कारं सुमण्डपं भोजनं च महाकुर्यात्कृतकृत्यश्च जायदे। यजमानो विमुक्तस्यास्थापकस्य प्रसाददः इति श्रीगारुडे महापुराणे आचार्यकाण्डे देवप्रतिष्ठादिनिरूपणम् नामाष्ट चत्वारिंशोऽध्यायः इति प्रतिष्ठाप्रकरणम् समाप्तम् ओ अध्यायम् फट्टि नैन् ब्रह्मोवाच सर्गादिकृद्धरिष्टैव पूज्य स्वायम्भुवादिभिः विप्राद्यैश्वेन धर्मेण तद्धर्मम् व्यास वैशृणु यजनम् या याजनं दानं ब्राह्मणस्य प्रतिग्रहः अध्यापनञ्चाध्ययनम् षट् कर्माणि द्विजोत्तमे दानमध्ययनम् यज्ञो धर्मः क्षत्रियवैश्ययोः दण्डस्तस्य कृषिर्वैश्यस्य शस्यते शुश्रूषैव द्विजादीनाम् शूद्राणाम् धर्मसाधनम् कर्म तथा जीवो पाकयज्ञोऽपि धर्मदः भिक्षा चर्याथ शुश्रूषा गुरोस्वाध्याय एव च सन्ध्याकर्माग्निकार्यम् च धर्मो यम् ब्रह्मचारिणः सर्वेषामाश्रमाणाम् च द्वैविध्यम् तु चतुर्विधम् ब्रह्मचार्युपगुर्वाणो नैष्टिको ब्रह्मतत्परः योधित्यविधिवद्वेदान् गृहस्थाश्रममाव्रजेद उपकुवानको ज्ञेयो नैष्टिको मरणान्तिकः अग्नयोतिथिशुश्रूषा यज्ञोदानं सुरार्चनं गृहस्थस्य समासेन धर्मोऽयं द्विजसत्तम उदासीनः साधकश्च गृहस्थोद्विविधो भवेद कुटुम्बभरणे युक्तः साधकोऽ सौ गृही भवेद ऋणानित्रीण्यपाकृत्य त्यक्त्वा भार्याधनाधिगम् यकागीयस्तु विचरे दुदा नः स मौक्षिकः भूमौ मूलभलाशित्वम् स्वाध्यायस्तप संविभागोय संविभागो यथा न्यायं वनवासिनः तपस्तप्यदियोरण्ये यजे देवाञ्जिभोदिज स्वाध्याये चैव निरतो वनस्तपसोत्तमः तपसाकर्षितोत्यर्थं यत्तु ध्यानपरो भवेद मारुक्षुर्जितेन्द्रियः मारु ज्ञानाय वर्धते भिक्षु प्रोच्यते पारमेष्टिकः यस्त्वात्मरधिरेवस्यान्नित्यतृप्तो महामुनिः सम्यक् चन्दनं सम्भन्नः सयोगी भिक्षुरुच्यदे भक्ष्यं श्रुतं च मौ नित्यम् तपो ध्यानम् विशेषदः सम्यक् ज्ञानवैराग्यं धर्मो यम् भिक्षुके मदः ज्ञानसन्न्यासिनः केजिद्वेदसन्न्यासिनोपरि कर्मसन्न्यासिनः केचित्त्रिविधः परमेष्टिकः योगी च त्रिविधो ज्ञेयो भौतिकः क्षत्र एव च प्रोक्तो योगमूर्तिम् समास्थिदः प्रथमा भावना पूर्वे मोक्षे त्वक्षरभावना तृतीये चान्तिमा प्रोक्ता भावना परमेश्वरी धर्माः सञ्जायदे मोक्षो ह्यर्थात् कामोऽभिजायते प्रवृत्तिश्च निवृत्तिश्च द्विविधम् कर्मवैदिकम् ज्ञानं पूर्वं निवृत्तं स्यात् प्रवृत्तं चाग्निदेवकृदक्षमादमोदया दानमलोभाभ्यास एव च आर्जवं चान्सूया च तीर्थानुसरणं तथा सत्यं सन्तोष आस्तिक्यं तथा चेन्द्रिय निग्रहस्था देवताभ्यर्थ नम् पूजाम् ब्राह्मणानाम् विशेषदः अहिंसा प्रियवादित्वमपैशून्यमरूक्षता ये ते आश्रमिकधर्मश्च दुर्वर्ण्यम् ब्रवीम्यदः प्राजापत्यम् ब्राह्मणानाम् स्मृतम् स्थानम् प्रियावताम् स्थानमैन्द्रम् क्षत्रियाणाम् सङ्ग्रामेष्वपलायिनाम् वैश्यानां मारुदं स्थानं स्वधरमनुवर्तताम् गान्धर्वं शूद्रजातीनां परिचारे च वर्तताम् वर्तताम। अष्टाशीतिसहस्राणां ऋषीणामूर्ध्वरेदसां स्मृदं तेषां तु तदेव वनवासिनाम् सप्तर्षोणां तु यः स्थानं स्थानं तद्वै यदीनां यदचित्तानां न्यासिना आनन्दं ब्रह्मतस्थानं यस्मान्ना वरुतदे मुनिः योगिनाममृतस्थानम् व्योमाख्यं परमाक्षरम् आनन्दमैश्वरं यस्मान्मुक्तो नावर्तते नरः मुक्तिरष्टाङ्गविज्ञानात् सङ्क्षेपात् तद्वदे शृणो यमा पञ्चत्वहिंसाध्या अहिंसा प्राण्यहिंसनं सत्यं भूतहितं वाक्यमस्तेयं स्वाग्रहं वरम् अमैधुनं ब्रह्मचर्यं सर्वत्यागो परिग्रहः नियमपञ्चसत्याद्या बाह्यमाभ्यन्तरं द्विधा शौचं तुष्टिश्च सन्तोषस्तपश्चोन्द्रियनिग्रहः स्वाध्यायस्यान्मन्त्रजापप्रणिधानं हरेर्यजीः आसनं पद्मकाद्योक्तं प्राणायामो मरुज्जयः मन्द्रभ्यानतो गर्भो विपरीदोऽस्य गर्भकः एवं द्विधात्रिधाप्योक्तम् पुरणात्पूरकसचः पुरा कुम्भको निश्चलत्वाचरेचनाद्रेचकस्त्रिथा लघुर्द्वादशमात्रस्य चतुर्विंशतिकः षट्त्रिंशन्मात्रिकश्रेष्ठप्रत्याहारश्च रोधनम् ब्रह्मात्मश्चिन्ताध्यानम् स्याद्धारणा मनसो धृतिः अहम् ब्रह्मेत्यवस्थानम् समाधिर्ब्रह्मणस्तिधिः अहमात्मा परम् ब्रह्मसत्यम् ज्ञानमनन्तकम् ब्रह्मविज्ञानमानन्दः स तत्त्वमसि केवलम् अहम् ब्रह्मात्म्यहम् ब्रह्म अशरीर मानिन्द्रियम् अहम् मनो बुद्धिमहदहङ्कारादिवर्जितम् जाग्रस्वप्नसुषुप्त्यादि युक्तज्यो दिस्तदीयम् नित्यम् शुद्धम् बुद्धमुक्तम् सत्यमानन्दमद्वयम् योऽसावादित्यपुरुषसोऽसावहमखण्डितम् इति ध्यायन्मुच्यब्राह्मणो भवबन्धनाद् इति श्री वारूडे महापुराणे आचारकाण्डे वर्ण आश्रमधर्मनिरूपणम् नामैकोन पञ्चाशत्तमोऽध्यायः ओम् गरुडपुराणम् आचारकाण्डम् अध्यायम् फिफ्टि ब्रह्मोवाच अहन्यहनि यः कुल्यात् क्रियाम् सज्ञानमाप्नुयाद ब्राह्मे मुहूर्ते चोद्धाय धर्ममर्थम् चिन्तयेद चिन्तयेद्धृतिपद्मस्तामानन्दमचरं हरिम् उषःकाले तु सम्प्राप्ते कृत्वा चावश्यकं बुधः त्रायान्नदीषु शुद्धासु शौचं कृत्वा यथाविधि प्रतस्नानेन पूर्यते येऽपि पापकृतो जनाः तस्मात् सर्वप्रयत्नेन प्रादस्नानं समाचरेद प्रादस्नानं प्रशंसन्धि दृष्ट्वा दृष्टकरं हि तद सुखा सुप्तस्य सततं लालाद्याः संस्त्रवन्ति अदो नैवाचरे कर्माण्यकृत्वा स्नानमादिदः अलक्ष्मीकालकर्णो च दुःस्वप्नं दुर्विचिन्तितं प्रतस्नानेन बापा निर्धूयन्ते नात्र न च स्नानं विना पुंसां प्राशस्त्यं कर्म संस्मृतम् ओमे जप्ये विशेषेण स्नानं समाचरेत अशक्रावशिरस्कं तु स्नानमस्य विधीयदे आर्द्रेण वाससा वापि मार्जनं कायिकं स्मृतं ब्रह्माग्नेयमुद्दिष्टं वायव्यं दिव्यमेव च वारुणं यौगिकं तद्वत् षटङ्गं स्नानमाचरेत् ब्राह्मं तु मार्जनं मन्ध्रै कुशैः सोदकबिन्दुभिः आग्रेयम्भस्मनापादमस्तकादेशधूनम् गवां हिरजसा प्रोक्तं वायव्यं स्नानमुत्तमम् यत्तु वर्षेन स्नानं तद्दिव्यमुच्यते वारुणं चावगाहं च मानसं त्वात्मवेदनं यौगिकं स्नानमाख्यादं योगेन हरिचिन्तनम् आत्मतीर्थमिति ख्यातं सेविदं ब्रह्मवादिभिः क्षीरवृक्षसमुद्बोधमालदी सम्भवं शुभम् अपामार्गं च विल्ं च करवीरं च धावने उदङ्मुखप्राङ्मुखो वा भक्षयेद्दन्तधावनं प्रक्षाल्य भुक् कृत्वा तज्जह्या शुचौ देशे समाहितः स्नात्वा सन्तर्पये देवान् ऋषीन् पितृगणांस्तथा आचम्य विधिवन्नित्यं पुनराचम्य वाग्यदः सम्मार्ज्यमन्त्रैरात्मानं कुश्यै सोदकबिन्धुभिः आपोकिष्टा व्याहृदिभिः सावित्र्या वारुणैः शुभैः ओङ्कारव्याहृदियुतां गायत्रीं वेदमादरं त्यक्त्वा जलाञ्जलिं दद्याद्भारस्करं प्रति तन्मनाः प्राकूलेषु तद स्थित्वा दर्भेषु सुसमाहितः प्राणायामम् तत् कृत्वा धायेत् सन्ध्यामिति श्रुतिः या सन्ध्या सा जगत्सु निर्मायाति दाहि निष्कला ऐश्वरी केवलाशक्तिस्तत्त्वत्रय समुद्भवा ध्यात्वा रक्तांसितां कृष्णाम् जपे बुधः प्राङ्मुखः सततं विप्रः सन्ध्यो पासनमाचरेद सन्ध्याहीनो शुचिर्नित्यमनर्षः सर्वकर्मसु यदन्यत् कुरुदे किञ्चिन्न ब्राह्मणा वेदपारगाः उपास्य विधिवत् सन्ध्यां प्राप्ता पूर्वपराङ्गतिं योऽन्यत्र कुरुदे यत्नम् धर्मकार्ये द्विजोत्तमः विहाय सन्ध्याप्रणदिं सयादिनरकायुधं तस्मात् सर्वप्रयत्नेन सन्ध्योपासनमाचरेद उपासिदो भवेत्तेन देवो योगतनुःपरः सहस्रपरमाम् नित्यांशदमध्याम् दशावराम् गायत्रीं वैजपेद्विद्वान् प्राङ्मुखप्रयदशुचिः अधोपतिष्ठेदादित्यमुदयस्थम् समाहिदः मन्त्रैस्तु विविधैसारै हृद्यजु सामसंज्ञैः उपस्तायमः योगम् देवदेवम् दिवाकरम् कुर्वीदप्रणतिं भूमौ मूर्धानमभिमन्त्रितः ॐ कोल्काय शान्ताय कारणत्रय निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे त्वमेव ब्रह्मपरमा मा पूज्यो धीरसो मृदं भुव स्वस्त्वमोङ्कार सर्वरुद्रस्नादनः यदद्वै सूर्यहृदयम् जत्वा स्तवनमुत्तमम् प्रातःकाले जमध्याह्ने नमस्कुर्याद्दिवाकरम् अथा गम्य गृहम् विप्र समाचम्य यथा विधि प्रज्वाल्यवह्निम् विधिवद्युभूयाज्जातवेदसं ऋत्विक्पुत्रोऽधपत्नी वा शिष्यो वापि सहोदरः प्राप्यानुज्ञाविशेषेण जुहुयाद्वा यथा विधि विना मन्त्रेण यत्कर्म नामुत्रेखलप्रदं दैवतानि नमस्कुर्यादुपहारान्निवेदयेद गुरुं चैवाप्युसा गुरुं चैवाप्युपासीदहितं चास्य समाचरेद वेदाभ्यासम् तथ कुर्यात् प्रयत्नाच्चकृदितो द्विजः जपे द्वाध्यापयेष्यान् धारयेद्वैविचारयेत् अवेक्षेद च शास्त्राणि धर्मादीनि द्विजोत्तमः वैदिकांश्चैव निगमान्वेदाङ्गानि च सर्वशः उपयादीश्वरम् चैव योगक्षेमप्रसिद्धये साधये द्विविधानर्थान् कुटुम्बार्धं ततो द्विजः ततो समये स्नानार्थं मृदमाहरेद पुष्पाक्षतां स्थिलकुशान् गोमयं शुद्धमेव च नदीषु देवकादेषु तडागेषु सरस्सु च स्नानं समाचरेन्नैव परगीये तदाचन पञ्चपिण्डाननुधृत्य स्नानं दुष्यन्ति नित्यशः मृदैकया शिरः क्षाल्यम् द्वाभ्याम् नाभेस्तद्धोपरि अधश्च तिसृभिः क्षाल्यम् पादौ षड्भिस्तथैव च गोमयस्य प्रमाणम् तु तेनाङ्गम् लेपयेत्तदः प्रक्षाल्याचम्यविधिवत्तदस्नाया समाहिदः लेपयित्वा तु तीरस्तल्लिङ्गैरेव मन्त्रदः अभिमन्त्र्यजलमन्त्रैरालिङ्गैर्वारुणैः शुभैः स्नानकाले अपो नारायणो यदः प्रेक्ष्य ओङ्कारमादित्यं त्रिर्निमज्जे चराशये आचान्ध पुनराचामेन्मन्त्रेणानेन ना मन्त्रविद अन्धश्चरधिभुतेषु गुहायं विश्वतोमुखः त्वं यज्ञस्त्वं वषत्कार आपुज्योदीरसो मृदं द्रुपदां वा त्रिरभ्यसे ्येव्यादाहृदि प्रणवान्विदां सावित्रीं वाजपे द्विधां तथा चैवाखमर्षणं ततः सम्मार्जनम् कुर्यादापोष्ठ मयो भुवः इदमापह तद्व्याहृदिभिस्तथैव च ततोऽभिमन्त्रितं तोयमापोषिष्ठाधिमन्त्रकैः अन्तर्जलम् अवाङ्मग्नो जपेत्रिरखमर्षणम् ध्रुपदाम् वाधसावित्रि तद्विष्णोः परमम् पदम् आवर्तयित्वा प्रणमम् देवदेवम् रमरे धरिम् आभपाणौ समाधाय जत्वा वै मार्जने कृदे विन्यस्य मूर्ध्नि तत्त्वयमुच्यते सर्वपादकैः सन्ध्यामुपास्य चाचम्य संस्मरे नित्यमीश्वरम् अधोपतिष्ठेदादित्यमूर्ध्व पुष्पान्विदाञ्जलिं प्रक्षिप्यालोकये देव मुदयन्तं न शक्यते उदुत्यं चित्रमेत्येवं तच्चक्षुरुधिमन्त्रदः हंसशुचिषदे तेन सावित्र्या चविशेषदः अन्यै सौरायिर् वैदिकैश्च कायत्रीम् च तदो विविधान् पश्चात् प्राकुले च कुशासने तिष्ठंश्च वीक्ष्यमाणोऽकम् जपम् कुर्यात् समाहितः स्फटिकाब्दाक्ष रुद्राक्षै पुत्रजीवसमुद्भवैः यदि स्यात्क्लिन्नवा स वैवारिमध्यगतश्चरेद अन्यथा च शुचभूम्याम् दर्भेषु च समाहितः प्रदक्षिणम् समावृत्य नमस्कृत्य तदः क्षिदौ आचम्यज यथा शास्त्रम् शक्या स्वाध्यायमाचरेद ततः सन्दर्पये देवान् ऋषीन् पितृगणांस्तथा ोङ्गारमुच्चार्य नमोन्दे तर्पयामि च देवान् ब्रह्मऋषिं शैव तर्पये दक्षतो पितृन् देवान् मुनिन् भक्त्या स्वसूत्रोक्तविधानदः देवर्षोंस्तर्पये धीमानुदकाञ्जलिभिप्रतिन् पितृन् यज्ञोपवीदि देवानां निवेदि ऋषिदर्पणे प्राचीनावीदी दुदेन तीर्थेन भारदा। निष्पीड्यस्नानवस्त्रं वै समाचम्य च वाग्यदः स्वैर्मन्त्रैरार्चयोद्देवान् पुष्पैः पत्रैस्तद्धाम्बुभिः ब्रह्माणं शङ्करं सूर्यं तथैव मधुसूदनम् अन्यांश्चाभिमदान् देवान् भक्र्या चाक्रोधनोहरः प्रदद्या द्वाधपुष्पादिसूक्तेण पुरुषेण तु आपो वा देवता सर्वास्तेन सम्यक् समर्चिताः ज्ञात्वा प्रणवपूर्वं वैदेवं वारिसमाहितः नमस्कारेण पुष्पाणि विन्यसे द्वै पृथक् प्रधक पृथक् नर्ते ह्याराधनात् पुण्यं विद्यते कर्मवैदिकं तस्मात्तत्रादिमध्यान्ते चेदसाधारयेद्धरिम् तद्विष्णोरिति मन्त्रेण सूक्तेन पुरुषेण दो निवेदये च आत्मानं विष्णवे मलतेजसे तदाध्यात्मनाः शान्तस्तद्विष्णोरिति मन्त्रतः अप्रेदे सशिरा वेदि यजे त्वा देवयज्ञं भूतयज्ञं पितृयज्ञं तथैव मानुषं ब्रह्मयज्ञं च पञ्चयज्ञान् समाचरेत यदि ब्रह्म यत्नं कुदो भवेद कृत्वा मनुष्य मनुष्ययज्ञं वै ततः स्वाध्यायमाचरेद वैश्वदेवस्तु कर्तव्यो देवयज्ञः स दुस्मृतः भूतयज्ञः वैज्ञेयो भूदेभ्यो यस्त्वयं बलिः श्वभ्यश्च पदितादिभ्य एव च दद्या भूमौ बहि त्वन्नम् पक्षिभ्यश्च द्विजोत्तमः एकम् तु भोजयेद्विप्रम् पितृनुद्दिश्य सत्तमाः नित्यश्राद्धं तदुद्दिश्य पितृयज्ञो गतिप्रदः उद्धृत्य वा यथा शक्ति किञ्चिदन्नम् समाहितः वेततत्त्वार्थविदुषेद्विजा यैवोपपादयेद पूजयेदतिं नित्यं नमस्येदर्चयोद्विजं मनोवाक् कर्मभिः शान्तं स्वागतैस्वगृतं ततः भिक्षामा सुर्ग्रास मात्रमन्नं तस्या चतुर्गुणं पुष्कलं अन्धकारं तु तच्चतुर्गुणमच्यते गोदोकमात्रकालं वै प्रतीक्ष्यो ह्यदि स्वयम् अभ्यागतान्यथा तथा भिक्षां वैभिक्षवे दद्याद्विधिवद्ब्राह्मचारिणे दद्यादन्नं यथा शक्रि लोभवर्जितः भुञ्जति बन्धुभिः कुत्सयन् अकृत्वा तु द्विजः पञ्चमः यज्ञान् द्विजोत्तमः भुञ्जते चेत् समूढात्मा तिर्यज्ञोनिं च गच्छति वेदाभ्यासोऽन्वसंशक्रिया महायज्ञक्रियाक्षमाः नाशयन्त्याशुपापानि देवानामर्चनं तथा व्यो मोहादध वालस्याद कृत्वा देवदार्चनम् भुङ्दे सयादिनरकान् सुङ्करेष्वेव जायते अशौचम् सम्प्रवक्ष्यामि अशुचिप्पदगी सदा अशौचम् चैव संसर्गाच्युद्धिः संसर्गवर्जनाद दशाखं प्राहुराशौं सर्वे विप्राविपश्चिदः मृदेषु वादजातेषु ब्राह्मणानां द्विजोत्तम आदन्तजननात्सद्य आचूडादेकरात्रकम् त्रिरात्रमौपनयना दशरात्रमधः परम् क्षत्रियो द्वादशेन दशभिः पञ्चभिर्विशः शुभ्येन्मासेन वैशूद्रो यदीनां शुद्ध्येन्मासेन वैशूद्रो यदीनां नास्ति पादकम् रात्रिभिर्मासतुल्याभिर्गर्भस्राव्येषु शौचकम् इति कारुढे महापुराणे आचारकाण्डे नित्यकर्माशौचयोर्निरूपणं नाम पञ्चाशत्तमोऽध्यायः ओम्